मुद्गलपुराणं खण्डं टु एकदन्तचरितम् अध्यायम् फोर्टिवन् च्यवनतपोवर्णनं श्रीगणेशाय नमः विमद उवाच भृगोः पुत्रश्च योगीशं यौवनं तताप तप उग्रं वै प्रयागेश जले दशवर्षसहस्राणि गतानि तपतो मुनेः तस्यैव तेजसा सर्वं व्याप्तं ब्रह्माण्डमण्डलं यकदा धीवरैस्तत्र जलेजालैर्महामते गृहीता मत्स्यकाद्याश्च दैवात्सोऽपि समागदः दृष्ट्वा मुनिवरं सर्वे भयभीदा ययुर्नृपम् धीवरा नकुशं सर्वोचुर्वृत्ता भयभीद नृपस्त्र प्रधानब्राह्मण मुनि यय महाभागं प्रणम्यस प्रणम्य सुरस्थि मत्सलोग व्याकुलामरणोन्मुा तगे स्थयामास सांसर्गिशु कृताञ्जलिपुडं दृष्ट्वा मुनि उवाच नकुशं मुनिसप्तमः उवाचमोचयप्राज्ञधृतं धीवरदोऽधुना मदीयदेहमौल्येन धीवरांस्त्वं प्रसादय श्रुत्वा तस्य वचः सर्वमुचे वै धीवरान् नृपः शतं सौवर्णमुद्राणां गृहीत्वा मुच्यतां मुनिः भवद्भिश्च महाभागैस्ततस्तं मुनिरब्रवीद शतं सौवर्णमुद्राणां मौल्यं किं मे त्वया राजा धनं लक्षं मौल्यं च कृतवान्मुनेः न योग्यं मुनिना तत्र कथितं स ततो नृपः ग्राममेकं मुनिर्मौल्यं चकार भयसंयुतः मुनिना तन्नयोग्यं वै कृतं तत्र नृपः पुनः नगरं देशसंयुक्तं मौल्यं कृतवान् मुनेः तत्रापि मुनिनामान्यं न कृतं नृपः राज्यमर्धं ततो मौल्यं धीवरान् धातुमुद्यतः मुनिना कथितं तत्र मम योग्यं न ततो राज्यं सम्पूर्णं मौल्यं तस्य चकारः ततोपि मुनिना दैत्य न मान्यं तत्कृतं भयभीदो नृपो माध्यायि कर्तव्यं नाभ्यपद्यत अधुना कोपसंयुक्तश्च्यवनः शापयिष्यति मां तत्र नैव सन्देहो मत्तेन प्रचोदितः तदस्तं व्याकुलं दृष्ट्वा च्यवनो मुनिरब्रवीद ब्राह्मणैः सह राजेन्द्र देहिमौल्यं विचार्य च योगी गणपत्यो महायशाः भरद्वाज दृष्ट्वा नहुष प्रणनामः भरद्वाजेन वृत्तान्तो ज्ञातः सर्वो ह्यशेषतः उवाच नृपशार्दूलं चिन्तां मा कुरुभूमिप ब्राह्मणानां गवां राजन्कुलमेकं द्विधा कर्मसंसिद्धये धात्रा पूज्यं च द्विविधं समम् हविष्यं गोभिरत्यन्तं धृतं वैयज्ञसिद्धये मन्त्राश्च ब्राह्मणस्तत्र धृतास्तद्वन्नसंशयः गां दत्वा धीवरेभ्यस्त्वं बन्धहेन मुनिं गुरु यवमुक्त्वा भरद्वाजो ययस्वेच्छाचरो मुनिः तथा न कुशभूपेन कृतं दृष्ट्वा प्रहर्षितः च्यवनो मुनिशार्दूल आशिषं विविधां ददौ तं नृपमानयित्वा स वनमनुत्तमं सुच्छायं सुफलं रम्यं सुजलं मुनिसत्तमः तत्र स्थित्वा तपस्तेपे महोग्रं तेजसायुधः निराहारेण संयुक्तो वर्षाणां च सहस्रकं एतस्मिन्नन्तरे तत्र शर्यातिश्च नृपो ययौ मृगयाभिरदो दैवात् मुदा श्रमे तत्र शरीरे च वल्मीकस्तृणसंयुधः जातस्तदपि घोरं वै तदापस तपो महदग् नरन् सर्वान्निवार्यैव संस्थितस्तत्र भूमिपः मा गुरुध्वं प्रवेश्यं सच्यवनाश्रममण्डले एतस्मिन्नन्तरे तत्र सुकन्या ससखीययौ वनं क्रीडार्थमुग्रेण तपसा संयुधं मुनेः महा। दिर्मये भ्रम्या चालिस्तो वालीक्र्योतिर्म ने दृष्ट् स विस्मद अज्ञान तथा मुक्त भावकंडकया चुषी भिन्ने ज्योतिपे महामुनेभ्या प्रसुस्रावृष्ट्वा भयसंकुला स्वनिवासं ययौ शीघ्रं सखीभिरसुरेश्वर ततः पुरीषमूत्रे वै सैन्यानां बन्धमागदे भूपश्यतेन शर्यादिर्भयभीतो बभूवः पप्रच्छ सर्वलोकान् च मुनिराश्रममण्डले छिद्रं केन क्षुभीदा भयभीदा वै सुकन्या रचिताञ्जलिः वने क्रीडनभावेन वल्मीके कन्दकेन च विद्धे मया महाराज्योतिषी नात्र संशयः ततो गत्वा वल्मीके संस्थितं मुनिं स्तुत्वा प्रसादयामास विनयेन समन्वितः तदस्थं राजशार्दूलमुवाच भृगुनन्दनः अज्ञानेन कृतं कर्म तव पुत्र्या नृपालक अधो मदीयसेवार्थं कन्यां देहि महामदे तदा सुखयुधं सर्वं भविष्यदि न तदो राजा स्वयं भीतो ददौ कन्यां सुलोचनं तस्मै स सैन्यमाधाय स्वपुरं प्रययौ मुदा सुकन्या राजपुत्री सा पदीं प्राप्य महामुनिं श्यवनं सेवने सकृ त्यक्त्वा देहभ्रमं बभौ ततः कदाचित्तत्रैवाश्विनौ तौ भिषजाम्बरौ आगतौ मुनिशार्दूलं प्रणम्य च पुरःस्थितौ मुनिप्रवाच तौ तत्र माञ्जयौवनशालिनं कुरुदं भिषजां श्रेष्ठौ सनेत्रं परमाद्भुतं ततस्थं मुनिशार्दूलमूचदुच्चाश्विनौ वचः देवैः साकं यज्ञभुजौ कुर्वा वां तपसो बलात् तथेदि मुनिना प्रोक्तं सभार्यं मुनिसत्तमं गृहीत्वा चाश्विनौकुण्ठं ययदूरूपदं परं तत्र स्नानं त्रयः कृत्वा पुनस्ते निःसृता बहिः रूपलावण्यसंयुक्ता कामदेवोपमा बभुः एकरूपधरान् धृष्ट्वा सुकन्या विस्मिता भवद नमोऽश्विभ्यां च मे भर्ता दादव्यो देवसत्तमौ तस्या सदि स्वभावेन सन्धुष्टौ ददुर्मुनिं च्यवनं तौ गतौ स्थानं मुनिश्च स्वस्थलं प्ययौ कदाचिन्नृपपर्यं तं चर्यादिं स्वाश्रमागतं सुकन्यादं पुरो दृष्ट्वा पितरं सस्वे सदी दृष्ट्वा मुनिवरं राजा यौवनस्तं महाद्युदिं तया सर्वं प्रकाशितम् तदस्तं प्रणनामाधनृपस्तेनापि यज्ञार्थं सहितं पुत्र्या गृहीत्वा च्यवनं व्ययौ शर्यादिर्यज्ञसंभारांश्चक्रे वै कर्षितो भृशम् आरेभे मुनिभिर्यज्ञं सर्वसम्पद्विराजितः तत्र देवामुदा सर्वे ययुरप्सरसां गणाः मुनयश्च महाभागा नानादिग्भ्यः समाययुः वर्णाः सर्वे तद्धा तत्र मानवानां समाययुः द्रष्टुं प्रह्लादयज्ञं तमानन्देन समन्विताः ओं तत्सदिधि श्रीमदाध्ये पुराणोपनिषदि श्रीमगले महापुराणे द्वितीए खंडेकदि च्यवन तपोवर्णनम नामक चरिशोध्याय